मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं ट्वेण्टि वन् मूषकगावतारचरितं श्रीगणेशाय नमः मुद्गल उवाच मायाकरासुरं वीक्ष्य तुदोषगणनायकः मूषकं समारुह्य ययौ सङ्ग्राममण्डलं चतुरायुधसंयुक्तं दृष्ट्वा विघ्नेश्वरं खलः दैत्यानाज्ञापयामास देवानां तदो दैत्यगणाः सर्वे क्रोधयुक्ता महाबलाः ववृषुश धाराभिर्मे इव सुदुर्मदाः दृष्ट्वा देव गणाक्रुद्धा युयुधुस्तान् समागतान् युद्धं महाघोरं सैन्ययोरुभयोरभूद परस्परं ममृरेत्य ते जयेप्सवः रक्तौ कैः संजादा सञ्जाता भयदायिकाः कदाचिज्जयिनो दैत्या कदाचिदमरामृधे न रात्रौ विश्रमं ते दु चक्रिरे क्रोध संयुताः एवं दिनानि सप्तैव युयुधुःशत्रको विदाः पलायन्तामराभिन्ना आहारवकराभृशं आहारवकराभृष्यं शङ्करक्रुद्ध आययौ रणमण्डले तदो विष्णुमुखदेव युयुधु क्रोधसंयुताः तेषां शस्त्रप्रहारेण मृदा दैत्या अनेकशः प्रजापदे पलायन्दभयभीदा दिशो दश मूर्च्छिदा दैत्यराजास्ते सर्वे भूदलमाश्रिताः दृष्ट्वा सिंहरवं माया करकृत्वा समागधः क्रोधयुक्तो महादैत्यशस्त्रवृष्टिं चकारः तया देवाः क्षदौ भूमौ पेदुः सर्वे प्रजापदे अग्न्यास्त्रे नमः दैत्यः पादयामास अन्ये दाहयुधा सर्वे पलायन्ददिशो दश एवं मूषकगस्तस्य बलं दृष्ट्वा तुतोषः स्वयं समागतो हर्षाद्रणभूमौ महाबलः दृष्ट्वा मूषकसंस्तं तमवोज दैत्यनायकः क्रोधयुक्तः प्रफस्यादौ वचनमद्यपो यथा मायाकरा सुर उवाच किं सङ्ग्रामाय विघ्नेश मया सह समागतः एकबाणेन हत्वाम् हनिष्यामि सुरान्मुनीन् चतुःपदार्थरूपं वै जगत्सर्वं प्रवर्तते तस्मान्मे मरणं नास्ति किं करिष्यसि देवप ब्रह्माण्डं निर्जितं येन तेन सार्धं गजानन योद्धुमिच्छसि बालः बालभावान्नसंशयः न त्वा मां स्वगृहं याहि न हनिष्यामि निश्चितं त्वामज्ञानसमयुक्तं प्रेरकां स्थान्निहन्म्यहं नाम मूषगस्ते चाकुतुल्यस्त्वं मदो मम मूर्खवन्नैव जानासि मां सर्वभयदायकं एवं मायाकरं वीक्ष्य स्वपराक्रमं मोषकगस्तमेवं वै जगादवचनं हितं मोषकग उवाच किं मां वदसि दैत्येन्द्र नाहं बालोऽसुराधम स्वानन्दवासकारी वैत्वां हन्तुं रूपवान् परः अनिष्यामि न सन्देहश्च दुर्भिर्वर्जितोऽधुना बालस्य पश्य मे मूर्ख पौरुषं दैत्यनायक यद्युक्त्वा क्रोधसंयुक्तकमलं निजहस्तगम् बिन्दुब्रह्ममयं ज्योतिस्तत्याज मुहुषकेशगः आगतं कमलं दृष्ट्वा महद माया करासुरस्तद्वै जग्राहबलगर्वितः गृहीतं दैत्यराजेन हस्तगं न च हस्तगम् पादकण्डदेशस्य ममारदैत्यनायकः कमलं गणराजस्य हस्तगं पुनरञ्जसा बभूव चासुरे शानाविस्मितास्सं बभूवि अहो मायाकरो राजा कथं ममारगर्विदः शरीरं यादृश्यं तस्य तादृशं दृश्यतेऽधुना तेजः समागतं ह्यत्र तेन तेजोहृदं शास्त्रखाद शस्त्रखादविहीनोऽयं ममार दैत्यनायकः तदो दैत्यगणः सर्वे भयभीदा समन्ददः पातालम्बिविशुर्दक्ष देवाहर्षयुधा बभुः मूषकगं नमस्कृत्य मुनिभिस्तत्त्वकोविदैः सर्वे पुपूजुर्देवे श्यास्तुष्टुभोक्करसम्पुटैः देवर्षय ऊजुः सर्वेषां भोगभोक्त्रे मूषकगाय नमो नम सर्वेवादेवाय गणेशा नमो नम लंबोदराय विघ्नायकाय परात्म भक्ता हे देश विघ्नदात्रे दुरात्मना हैरम्बाय नमस्तुभ्यं भक्तवत्सलरूपिणे स्वानन्दवासिने चैव परेशाय नमो नमः महोदराय पूज्याय सर्वेषां सर्वरूपिणे सर्वादिपूज्यपायैव वक्रतुण्डाय ते नमः त्रिनेत्राय च कमलस्य धरायते मूषकोपरि संस्थाय ज्येष्ठ राजायते नमः अमेयाय गणाध्यक्षस्यूर्पकर्णप्रधारिणे सर्वेशाय नमस्तुभ्यं ब्रह्मणे ब्रह्मरूपिणे अनादये तथा मध्ये नानारूपधरायते अन्दे तादृशरूपाय त्रिस्वरूपाय वै नमो नमः शेषपुत्राय शैवाय पाराचर्याय ते नमः सर्वेषां जनकायैव मात्रे ब्रह्मेश दे नमः स्रष्टे पात्रे च संहर्त्रे गणेशाय नमो नमः शान्तिरूपाय शान्तिभ्यः शान्तिदाय नमो नमः अपारगुणधाराय योगिनां हृदि संस्थित स्तुमो नः प्रसीद नमो नमः एवं स्तुत्वा गणेशान्नं प्रणेमुस्ते सुरर्षयः प्रसन्नात्मा मूषकगस्तानुवाच प्रहर्षितः मूषकग उवाच कृतमे स्तवनं सर्वैर्भवद्भिः सर्वदं भवेद् यद्यदिच्छत तत्तदास्यामि वै भक्तितन्द्रितः पठतां शृण्वतां नित्यं स्वाधीनोहं भवामि च भोक्ति मुक्तिप्रदं पूर्णं पुत्र पौत्रादिवर्धनं वरं वृणुददेवेशा देवा मुनिसमन्विताः दास्यामि स्तोत्र तुष्टोऽहं वाञ्छितं नात्र संशयः देवर्षय ऊचुः मायाकरासुरस्यैव नाश महान् तेन तुष्टा गणाधीश किं वदामो वरं परम् भक्रिं देहि दृढां नान्धत्वदीयां शान्तिदायिनीं तया वयं गणेशान कृदकृत्या संशयः तथेदितानुवाच गणे सौन्दर्दधे देवा स्वस्वस्थानं देवाखिन्ना ययुः सर्वे स्वस्वस्थानं निरामयाः मुनयस्वश्रमं जग्मुर्महाहर्षसमन्विताः हा। पूर्ववत्कर्मकर्तारो सर्वजन्तवः शेषूर्छितस्तत्र पपादधरणीतले हृदि तस्य गणेशानप्रकटोऽभूच्च तत्क्षणाद जगाद तं महानागं मन्मूर्तिस्थापनं कुरु तत्र पूजापरो भूत्वा कालं प्रामजसर्पप पातालविवरे क्षेत्रं भविष्यदि सुसिद्धितं तत्र मां पूजयिष्यन्ति तेभ्यः सर्वं ददाम्यहम् एवमुक्त्वा दर्दधे सौ गणेशो ब्रह्मनायकः शेषस्वगृहमागत्य तथा चक्रे सभावदः सदयोजनपर्यन्तं क्षेत्रं गणपदे स्मृतम् पादाले सिद्धिदं सर्वं स्वानन्दं कध्यदे परम् तत्र पूजनमात्रेण वाञ्छिदम् लभदे नरः अनुष्ठानविधानेन ब्रह्मभूयम् लभेत्तथा इदं ते कथितं दक्ष मूषकगस्य चेष्टिदम् भुक्ति मुक्तिप्रदं पूर्णं श्रवणात्पठनान्नृणां जगत्सुब्रह्मसुस्थित्वा चौरवद्गणनायकः भुनक्ति भोगकान् सर्वां स्तेनायं मूषकध्वजः भक्तानां स्मरणेनायं पुण्यपापभवं मलम् कृत्वा ब्रह्ममयांस्तांश्च कुरुदे मूषकध्वजः ज्येष्ठशुक्लचतुर्ध्यां महोत्सवो वै प्रवर्तते जनुस्तिर्गणेशस्याङ्गारकी मध्यगैरवौ स्तेयानां विविधानां स जवाहोऽयमुच्यते ततो मूषकगो लम्बोदरप्रोक्तप्रजापदे ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिदे मूषकगावतारचरितं नाम एकविंशतितमोऽध्यायः ओम्